ेवतानि हवेतुं शुभवन्ते एतावन्तो वै देवानागुम् भवाः अयवात्यै भवान् च यच्छन्ति करेण गुण्कुवन्ते अग्रेवणवनागुण्मरे स्वमवनस्पतीनाम् ऋद्धूनाम् रहतभाषाम् इन्द्राज्येष्ठानाम् चित्तसत्यानाम् करुणसर्मपटीनाम् शयनुसर्वम् भेतात्मा प्रसमाना किं सुमदानि हस्तम् गन्धादितो शयदेवाय वसुभक्तेत्याह यथाय वेतदे हते क्षत्राय महताधिपत्याय महते जातराध्यायेत्याः आधिषमयवेतानाशा हे गव भर्बालाजा भौमस्वागम् ब्राह्मणा नागौ राजयत्याह सोम राजाना ब्राह्मणाः तृत्यम् नाम राज्यमधारीत्याह राज्यमेवाख्यम् प्रविदधागे स्वान् अनुभम् वर्णमाधिष्ठेदित्याह वर्णपमेवावरुन्धय श्रु च मित्रस्य वृत्त्या भोमयत्याह श्रुतिमेवैनम् वृत्यम् करोति अमन्वयमहतदश्चनामयत्याः मम चेणम् सर्वेद्राजावरुणस्यात्याः सर्वौ राजमेघैनम् करोगे सुमित्रयवेदराजमता वेदित्याः अराजमेघेन तारयते असौ जदण्डे जयाधिशयेनमानम् आवेत्याः आयुषेवास्तिन्दगे भ्याम् निमश्च अर्जे लोमेन कपालश्चरेव सुभान् च अभिधामग्नये कृत्यजे हेमताभिदेवेण उभयत्परिग्रन्हाय पृष्ठक्रमान् क्रमज पृष्ठदेव भवतानभिजे अर्चैदच्छैति भोजे आहुच्छैवेनानिष्पेय ग्रन्थाय असरपरिष्कृतानामेवाभिसृतानाम् गृह्णाति अहम् केनाम् गृह्णादि एता वा अपागो राष्ट्रम् राष्ट्रमेवा श्रे गृह्णादि अथौ श्रयमेवैनमभिवहन्ते अपान्तजरसेत्याः विसमेवाकः विषाराप्योर्मिरीत्याः ऊर्मिमन्तमेवनम् करोषि रसैन्याः सैनामेवाषग् गच्छते प्रचक्षिदक्षयत्याः एता वा असाम्विषः विषमेवास्यैपलियो हगे तनुदामोदक्षयत्याः अन्नम् वै वर्णः अन्नमेवाबन्धे सूर्यवक्षसक्षयत्याः शास्त्रमेव वत्कक्षः सूर्यत्वजसक्षयत्याः अत्यम् वा एतमे चद्वैषे हनुषङ्गदाशवधिवैषवे सत्यादृते एवावरुन्धे हैनकम् सत्यादृते उदेशः एवम् वेदा माम् दाश्चेत्याः साकमेव ब्रह्म तस्यकः साश्चेत्याः साक्रमेव वस्यकः सत्त्वरेश्चेत्याः अशुभवेशत्वरेः अशुभमेवावरुन्धे विश्वपरस्येत्याः सामेव वयस्यकः क्षेत्याः राष्ट्रमेवेन्द्रिगाव्यकः अज्ञैनस्य गत्याः राष्ट्रमेव च दत्स्यकः अपामोषे नागवसरक्षेत्याः राष्ट्रमेव अपाम् पृष्ठम् षट् सरस्वती कृषमेव समाधानाम् करोति षोडशग्रन्थादि षोडशकलोके पुरुषः ध्यावानेव पुरुषः तत्कृदधा षोडशषद्ग्रन्थादि स्वात्रपुंसः सम्पद्यन्ते स्वात्रपुंसदक्षणानुक्षे भावत्सर्वा निषन्दागुं मादेवेन तु सर्वे व्यसन्दासेञ्चरे हे वीराभक्तं मधुमदे मधुमदे विसृज्य ध्वनित्याः ब्रह्मदेवैनाक्तंसृजी अनाशष्टास्ताः बृम्भे दैनाभोभ्यश्च सायते आध्यैनो होताः ऐन्द्रोभ्राम्भनाक्षगुण्ठे चै वैन्द्रेदवराष्ट्रम्भरिग्रन्था आहुत्यै पवित्राणाभ्यामत्पुणम् जद्यावृत्ये शतमानम् भवति शतायुः पुरुषस्थेन्द्रियः आयुषेण अनिषष्टमुखेत्याः अनिपष्टज्ञश्चेतदे आयोगम् शयत्याः आयो बन्धुवैत्याः तपोजाचेत सोमश्चेत्याः सोमश्चत्येतदात्रान् शुक्राव शुक्रेणात्मनामेत्याह शुक्रा श्यापः शुक्रगम् हिरण्यम् सन्द्राश्चन्द्रेनेत्याः चन्द्राश्यापः चन्द्रगो हिरण्यम् अमृता अमृते नेत्याः अमृता श्यापः अमृतगो हिरण्यम् साः राघो यायत्याः राघोयायस्य पुना चे सहमादोरो चाण्यच्चारम्णाचिवावन्धे एकयाग्रन्धागे शेखधेन यजमाने वेद्यन्तधारे क्षत्रस्वये क्षत्रत्रयोजर आम् चियो निय शेखसरेण तद्भवन् देदयस्पवेयके सह च पुरुषेर्यः आत्मैकसरः यावानेव पुरुषः तस्मिन् वेद्यन्तधादे शाजे इन्द्रियमेवावन्धे कुटुम्बनमासेते अन्नाद्यावरुध्यते सुरापदिमेवेन करोति आविनगरसा भवन्ति आविनमेवेन गमयन्ति हद्य एवेन इन्द्रेन्द्रियेन ऊषाभुभिः हितावरणक्षाणापाणाभ्यानाम् इन्द्रोवृत्ता एव जौरे सदैवमलिखते पन्था अभवज सा पृथगे धनव जयऋवे उपाधारेवन्द्राय वज्रं का भरज कालिन्दे ज्यावा पृथ्वे धनव्र जयवेलाः आभ्या नैव कृषो सो इन्दो वज्रम्भ्यायक्तः ये हान्द्रा जयवेदलविश्वः श्वे हत्यायेव प्रजनस्थले हाविन्नाय सागाविश्याय न्याम् निशक्तिम् राष्ट्रत्याहैव राष्ट्रेण समर्थयेते महदे क्षत्राय महताधिवत्याय महतेयत्याहे शैशव भरताराजाकम् ब्राह्मणा नाय राजयत्याह तथा वज्ज्वल्यप्रयक्तलिविलित्य शत्रुवासनाक्षय शत्रू नैवाश्च पादम् च पादमाः प्रत्यञ्चम् पादमाचर्यन्तमन्त्रम् मा पादयत्याः शित्रोदेशव्याः जलस्य मौलेः आभ्य एवम् पान्ते विश्वमा पादयत्याः विते विश्वाः सुरमायास्त्राभ्यः पादयत्याः पान्ति हिरण्यवन्ना वृता कृष् बाहु ग्रन्थादि इन्द्रियम् देवेर्यम् कृष्व इन्द्रियमेव वेद्यत्वम् सत्य त्याः वृम्भयत्याः स्वर्गमेव लोकमभिजेगे अलोकिहेत स्वर्गश्च लोकस्य मरुतः हन्न नैवावलुम्भय हेकविमोषेखपावक्पच्ये क्यो रञ्जयवानः मध्यदमुपधारे ेव पुरारण्या स राष्ट्रम्भव स एतानि पात्राण्यपच्यते कले द्वे राष्ट्रमभवते यत्सास्त्राणि भोजे राष्ट्रमेव भवेत् बालरत्पत्यम् एमम् भवति चैन्द्रमुत्तमम्भे क्षत्रम् चेत्क्षापयते षट् देशस्य बालसुम्पद्यन्ते बालसमाता संवत्सरः खलु वे देवानाम् पूर्व पुरस्यैव मृत्यर्जायते पदगैवमायुवेति सर्वेकस्य मृत्यु स्था तस्मानाभ्याभोजेन जानो नाभिः सोमप्रत्यषर्भोजादिशाकर्मोपस्थिनादि एव सो मेत्रिभिः दाशार्द्रूले सामेवावरुन्धे मृत्युवानुवा एष वह्नः चाः द्रूलः अमुषगो हे अन्यम् अमृतमजवत्यवान् पाधे जगयम् जमकारे अमृतनयन्तर्धत्य शतमानम् भवजेत् शतान्द्रियः आयश्चन्मापाले विमलश्चादधागे नगनेवात्यैतन्मतसागे अलयश्चादन्तशो काले नीक्षरे अस्मा वेतौ काचपुंसुकाः शिरप् चैलितारस्य आत्मानैवत्मनः पूर्वे विलिक्षा इत्याहो स्वनाम् प्राणपुंसुवन्धानमित्याह प्राणानैवात्मनः पूर्वः विजिञ्चके ीति केदस्यैवस्याञ्चामीत्याह्यो मे देवनजापुषः सेवैनम् देवनजाभिरिञ्चत्याः सौर्यक्रवर्ततेत्याहे वा छिन्दभागेत्याः ओषेवाश्चिन्दभागे क्षत्राणाम् क्षत्रवजयेत्याः क्षत्राणामेत्रवजिङ्गत्याः ह्यान् द्वारे दिवाले कृताः समावर्तम् काष्ठैनेन उच्चैर्षन भागोरे वृद्धः भागजैव निरवदयते पुरम् फले चार्गे भोगे हेदालयुद्रे स्वागालेव निरवदयतेः हक्रयैव अन्नाम श्च मृत्युमश्चेत् प्रजा प्रजापमये हमयेजये ब्रह्मवर्तसमेवाश्चिन्तधारे औदुम्बरेण राजन्यः ऊर्जमेवा चिन्नसागे आस्पथेन वैश्यः इषमेवाश्चिन्वच्छिन्दसागे तैल्रोधेन जन्यः निद्रान्धवायुजे असौ प्रेत्यैलस्य वज्रोभि चित्रावर्णयो स्वात्मशास्त्राणि लग्ने ब्रह्मदेवयम् देवताहाभ्याञ्जनत्ये प्रतिवाहिलक्षे प्रतिवाहेणैव रसः जयसमेवैलक्षे त्रियोस्मा भवन्ते ततश्च वृत्सः गौसौ यथासंपद्यन्ते षड्वामः ऋषरेवैनके ऋषत्क्रमान्तवदे ङ्गलेन्द्रियमेव न्दक्रमज शिराजम् दिनायन्द्रियेण वैर्येत्यामेव वैर्यमात्मन् भक्ते शूनाम् मञ्जरद्रव्यदिवाभे मन्त्रे पशूनाम्बामञ्जवराः स एवमात्मन्ध्य अभिवार्यम् सुम् कामयुज तस्य हत्यादेवान्तर्भट इन्द्रियकृते नमो मात्रे सुाभिन्तायै चेदस्याय रक्षायम् मे देहेत्याः आत्मन् ओर्जस्योर्जम् मे देहेत्याहर्जमेवात्मन्धत्तेवच्च मयि देहेत्याहत्मन्धत्ते हेदथा ब्रह्म हेदथैव यजमानाजोर्जम् प्रथमोत्ते त्रयोश्वा भवन्ति परत्र बुद्धः तत्मानः चतुर्शभोजे न्दये चरिच्छन्दाः हरिच्छन्दसायेत्याहेवाहःता मित्राभिवर्णोहेत्याहश्वरे दक्षिणः भावनसव्यः ऐश्वरेक्षाः त्रयवे नोभागेन उपावहरगे त्याः दे देवे महात्मा एवं जयन् माम् जेत्याहं साये जन् ब्रह्मा चेन्द्रत्यौ जायित्याः त्यसु वैत्याः सायत्रेना सिद्धाः इन्द्रादिभक्त्यौ शायित्याः कृष्णमेवेतेना भियाः जे मित्रोषयवैत्याः शेमेवेतेनाः जे सत्यमेतादेवलानाः सत्यमेतानिषन्दाकुजे सत्यमेतावरुत्याः हनुष्ठेतेन सत्यानुदेव सत्यानुजयवर्णः सत्यादयुन्धे सत्यादयुजे हि गृप्तः प्रयच्छति अज्रोष्ठत्माध्ययः तस्माध्ययः एवम् राजा भोजि पञ्चाक्षान् प्रयच्छति अवराजये नमः वैलयं तवये भोजनं तुवये धरने श्रीमानये तथा केदानाह परमायेवे कृष्णं गमेदे असोमोदनां सोऽन गनाः सत्यराजा नित्याः आदित्याः मासाय सौवनश्चैव पुरुषेन्द्रियः आयुश्चैवन्द्रिय प्रतिगच्छते माषस्यैकविंशकैश्वरेव भ्रमणजने एवनाभेवैः परिगृह्णामे े स्वाभो जोक्षे स्वाहे स्वाहे स्वाहुजय जले श्रे हिमे लोकाः हे क्षेम लोके ओ वरुणक्षालक्षेन्द्रियम् धैर्यम् पदापतदे हस्य पुंसमसे सत्य पुंसपाय ब्रह्मणा पञ्चमेण देवेन सप्तमे सौमे लदानि नमे कृष्णंसन्दे इन्द्रियमेव लब्धे घोर्गाभोर्भावेन इन्द्रियस्य ये निरस्यावरुद्धे पुरस्कारे स्वेन एव नन्दशागे अन्तरा एव जिन्तजे उपरि फलेन यज्ञाले विष्णुः त्यजेवान्तः प्रतिष्ठते रामिव एतत्कुर्वन्ति तत्सद्यो ये क्रयन्ति सद्यस्वामम् गृह्णन्ते पुण्डलिस्त्राम् प्रयच्छति लामित्त्वाया अन्यवस्तुवर्गम् लौकीयन्तः अप्सरे तत्कुण्डलेकमुभवते तत्कुण्डलित्रलाम् प्रयच्छले आक्षादेव स्तभये स्वालङ्गेनादे यदा निराय अन्नम् निराय यदा एवान्नाद्यमवन्ध्य पुष्कलाभवन्ते नय स भवते अन्नाद्यच्चामध्ये स्वरम्बराम्भनाक्षिवन्द्ये सदा यस्वेन्द्रियः आयुः सर्वेन्द्रियप्रतिपष्टके हस्तदश ज्यक्त्वा हस्तदशः प्रजापतिः प्रजापते राजा प्रजाशमेवैलङ्गमयदे श्रियमुखाश्रे श्रेयमायवासयते कृष्णोहात्रे आदित्यमेवास्था उन्नयरे हस्तम् वृत्तप्रस्तभ्याः राजापत्योगाश्व प्रजापते ौेन ब्रह्मणेन आयुर्वेवा वृन्देत्रायवश्यकः शकुंसिने आत्मदेवेन्द्रिया गोलभ्याः पवित्रयवा सूर्यवाजदमच्छावाय हन्त एववर्णवने प्रहमज्येधे कन्धर्वाय सन्ध्येन वञ्झान्धय किन्त्र सुखवानस्तत्रयन्त्र्यम् धैर्यम् परावदय सुरप्रेण सायन्त्रेण हरस्पते प्रेयम् भागमाभोकानुभवजे सायन्त्रेणम् ब्रह्मधामम् भवजे भालवन्तेन स्वानुधावम् भालस्पदे इन्द्रियश्च वेद्यस्यामरुद्धये स्वागन्तेयम् ब्रह्मसामम् भवते इन्द्रियमेवास्मिन् देव्यज्ञ श्रयते पार्वन्त्येयमज्ञस्तामसामम् इन्द्रियमेवास्मिन् देव्यम् बालयते स्वरोगायन्म किञ्चितोऽनुल्या स्थापयन्ते भवन्ति वक् प्रतिगच्छन् मादाय पञ्चदेवता पञ्चदिशः शिक्षे वृक्षरे भविषये आदित्यान् मल्भाण्डिमात्रैराजे आदित्यया प्रजलये मारित्योत्तरया न्द्रियाज्ञकः विद्रैभः कृषमेवेन्द्रियामकः संयत्ताः सन् हे देवाश्रिनाम पूजन् वाचसत्यमु सन्निधाय हनुदयेन पुरानभ्यफलन् हे हे कुभ्याणाम् भोवस्ते पुनसा वाचसत्यवानभ्यानाम् भोस्ते पुनपादश्यवते हनुदय नैव विभोज वाचसत्यभवन्ते तदेव सत्यवाचयसम् उत्तरे क्षिणाय कर्ताक्षित्रम् चालाप्राञ्च याञ्चे सौर्यञ्चलम् कर्ताव्यवसायाशयन्ते सादशकपालम् सत्ता पुरत्साजमानागुरुषमित्याविरुन्धरे जलम् हरिप्रेम विरुद्ध ब्रह्मनायवाणादधे पार्श्ववत्साकपालम् दोसा हेष्पालम् तत्मानात्रिहन्य प्रत्यञ्च कुर्वन् शालायां तत्मानाश्चे औष्णेन हैत्येन कृतञ्चैप्रत्येन पादयन्ते आदित्येन आद्र माध्यमाना भवन्तयम् जैलेल् षडे निरुच्याने षडुत्तरम् प्रयम् च दक्षिणमासवाहन उत्तर उत्तरे स्य समश्चे इन्द्रस्य दुर्णस्य हयत्रभवम् हिलक्षेव तत्फलमभवजे ह्यम् तद्भजनम् क्षत्रीयम् तत् तत्कन्धोन् ह्यन्नक्तः स किमुभः हिलक्षोः सूनः ह्यकन्नयोः स्वदेशः च ओर्ध्वः सोभः चाभाग्ये भवन्तिावया विरोमाने कृषि राम्नाः प्राणायन्ध्यम् धैर्यम् प्राणायन्ध्यम् धैर्यम् विदमान आत्मन्ध ीणाम् यत्से तम् हस्तेन पुमारे यत्सौरोत्रा महे समुद्यः स्वमयते स्वमाभ्याम् वच्च वचक्रेन्द्रन्ने वच्चः एताभ्येदा देवताश्चेदस्वासरे पुनानुदयुनावच्चे पवित्रेण पुनादे पवित्रय लघितामम् पुणन्ते हारे लघुस्वराजने रत्याः हारे लघु सामम् पुणन्ते राजः कोधः पवित्रेण राज ङ्गेया ग्रन्था प्रजापतिः प्रजापदैरात्यैः चैन्थाने वैर्यन्धारे आश्रन्थो हस्य लोके देवानाम् हृदयो साक्षा मेलाक्षे हिलङ्गे परस्परम् मेघम् मार्गे सरस्पजे वादेवेन यत् पार्थम् धैर्यम् सध्याय सात शै गोपालय चेतशैवास्मिन्निन्द्रयम् धैर्यम् दधाये हैकेनाम् कशूनाम् करोना च भवन्ति क्तेयामभाग्ये भवनः सर्वादेव देवता ब्राह्मणम् परिक्रेणक्षपाता ब्राह्मणवाख्या भुक्त्या श्रीब्राह्मण सन्नेकपतायामवलय कैवलभक्त्रायश्चित्ते यस्तेभ्याम् प्रथमभ्याम् प्रथमस्य िणा एषाश्वम् अशुंशतत्समय विशस्यालभये शृम्भे देवानायुजये शृम्भले वैद्यश्चे परमप्रदेशास्पदप्रदेशम् समनयतेन्द्रियः आयुष्यदयन् परिदर्शये कथिनोद्भवये आपत्सरेयते एतस्यै वेद्यम् गच्छति एवम् प्रमाण्याहापतिष्ठते प्रेरेन्द्रियम् वेद्यम् गच्छति ्रह्माः अवपतिष्ठन्ते यज्ञाक्षि भैरजन्तरोजे अर्जप्राहरे वा यतापूर्वम् षड्वितमानाः शेतावाग्रीयज्ञः पवमानाः आत्मने आत्म्य भवते प्रजावा वृक्षानि अशुक्षानि च वृक्षा भवत्यनुसन्तस्य सर्वासामेव प्रजानागम् सर्वाणम् प्रजानाय च वदन्ति अत्यन्तसक्षुपैत्याः आदित्यादे प्रजानाः प्रजानामेवम् भार्या अक्रणे यदा परस्वभाषो अग्रे च नैव यज्ञमुखान् नयञ्चेत् अधक्षत्वसमापते अधश्च भाग्वा नष्टव्यव क्रयन्ते प्राजोद्यन्ते उद्वरे अनुभवन्ते तद्दवानष्टम् आदक्षपादाजन्यः तत्पादुच्छाभवदे स्वर्गस्त्रोकस्त्रत्यये सवादे यत्साम्यजेराक्षाभवते भवन्ते है एव राजा नागुंसामाने है मनुष्य राजा नागुंसामाने है रक्षवध्वाजे भेव लोकयोग्वे शैव लोके च मनुष्य लोके च एकविंशख्येजो प्रथमः सप्तदशो हृद्वा एकविंशः राक्षं सप्तदशः मध्यताभिरिच्चरे हस्ताद्वा एकविधाम्भ्यः स्वमध्यराभिरिच्चलेन हृद्वारेण्या स्थापयन्ते हस्त्वर्गल्लाकमभ्यारोहे हिमल्लाकन्न प्रत्य क्षमाभिक्षमा न्यामः इन्द्रियम् चैर्यलग्नम् युष्यैवेन्द्रियुर्वैरण्यम् आयुष्यालरेण अभिलक्षरन्ते शैलौवे हिरण्यम् चैकस्या एवमभिरन्ते हौरे हिरण्यम् हर्गस्या एव अभिलक्षरन्ते अप्रदक्षा यदा प्रयच्छाः संवत्फलस्याहोरात्राणि होरात्रय त्रयः प्रतिरक्षये नमः प्रतिलक्षते और्णमास्याम् को भ्रमहद्भवने कष्टकार्यामुत्तरम् एवांसमासे वास्याम् को नमःत्तरम् नैव मासे वा प्रथये अतो खलु ये एव पुण्याहेत्यागानाम् कार्यम् प्रयच्छ अपदव्यादि आत्रयत्याहे सायत्रम् चगदेवजतेनम् अथैव जगदे कृताः असवदयः यः सर्वा एषस्य आत्म एवम् विद्वान्त्य आश्रय अग्रे सेवात्मा उच्यति असौ नेवा अद्य क्रमम् ददाहरे अद्य सर्वा देवताः देवता सेव प्रवेशी भो अथवा यभातः द्वितीयाक्षकप्रारम्भः ओ सत्रमा केषाम् तस्य धर्मसुपादे सद्ये चेनाजीवत् हे हे ब्रुवन्न कक्षै सत्रमात्महे हे हेषधेर्न जनया मलिते हे दिवो वृष्टिमधिरन्ता यावन्तः शोकालापद्यन्त तावके लोषयो जायन्त सा जाताः पितलोषेणा लिम्पन् ताजाप्यन्ते हे ब्रुवन् करितमित्थमघलिते स्वयम्फागेन मिथ्यमाना इति पितलाब्रुवन् हिंहपाघे गलिते अर्जमात्र ब्रवन् भागेयम् प्रायच्छन् यद्धत्वाभिमाष्टे ततो एकवोषधे अस्पदयन्मेताराजन् चिरन्नापद्यम् प्रदापयते आशङ्कमम् तस्माद् न तस्माकम् गम् द्रष्टशयः हते सन्धारन्त समभाग उपायाश्च प्रजाभिमते तम भाताभवत् तस्माद्यस्य लक्ष्मस्य आञ्जयलक्ष्मेस्याः शादुसमृष्टाः तस्मात् कथ्यचिकित्सा चेमेवम् विद्वानपि चिकित्सते स्वकीयगैव चागभ्यवद्यो चे सौरोचरेण कस्त्वमचेते सैव दैवादिच्छस्य जन्मेवस्वाः कालस्य जन्म वेन हरोः कालेन धैर्यम् यस्यैवम् विजनस्वाः कालेन शिप्ते भोगादैवाश्च हुतम् भवते तस्याः भुक्ते पुरुषमसजता द्वितीयमझोज स्वश्वमसजता द्वितीयमजोज जताम् पुनःप्राविशत तम् प्रजापतिनव्रजेत त च तथाभिषेयमभ्यजायताहोस्त्रम् तत्मादज्ञिः तद्धूयमानमादित्या माहोदये उभयोत्रेणा वेतले सोऽ प्रसन्नो भोष्यन्ते च कार्यमेव तुभ्यम् जुभवन्ने शासनमह्यमित्यभ्रयेण तत्मालज्ञेन कार्यमुभूयते सौर्याय प्रातः आग्नै वैराच्ये अयम् नमः चलमुजित घोर्य उभयमेवाज्ञोर्यभोजे तथाज्ञयपायम्भोद सौर्याय प्रातः आच्यम्बा प्रजा प्रजायन्त हा प्रयगच्छन्ते यथायम् जोजे तैवतेनजायतेहोते तस्यैवतेन तिष्ठते प्रजावचनकामे तत् प्रजाभे तदहोत्रम् विश्यते तदृशयघोर्यजहोत इति सा मन्यते कोष्ठेन मन्यते ततो हवैत प्राजायता तस्यैवम् विगतपुषिते गौर्यज्ञहोत्रम् जुप्पते तदैव जायते अथवा यथान्येति शासे अर्वचे अथवा खल्बाहो गृहेऽवसदः कश्चकम् राधयत्यन्यम् न भो वा अवसदा गृच्छते अज्ञम् वाच्चयम् प्रविशते तस्मादज्ञद्भोगान्नम् प्रविशे देविशेषपद्येते उद्यम् तम् वा वित्तमद्यवदसमारोपते अस्मात्वाज्ञेय श्रीमासेतायञ्च भुजा आसौर्याय पृच्चेताौर्याय प्रातश्च भुजात् आग्नेयच्येता हेवताराभ्यक्षमनन्दत्या अज्ञोज्योतिसौर्य स्वाहेत्येवतायम् भोक्तव्यम् ज्योतिरज्ञस्वाहेति प्रातः ततोध्यानाम् प्रातः सदैवता अज्ञम् ज्यो दरित्याः अज्ञाः प्रजाज्यो दरित्याः प्रजा एवात्मनेश्वजनयते सो योज्योतिरित्याः प्रजा एव सर्वप्राताब्दयज्ञ स्वाहेत्याः प्रजा एव प्रजातास्याम् प्रतिष्ठापयते यथा यत्रैतद्धरन्ते तस्मात् लोषम् जोगे तदेव सम्पदे प्रार्थम् हि गोकेशायन्दान्त तथा पत्यमायिकाफले वा एषोलक्षसम् अथो खलु प्रतिपति तत्त्वसव्यम् यद्युहोके तद्ब्रह्मलच्छे उभयमेवाकः प्रच्युतम् वा एतदत्मानम् लोकालोकम् अभिद्योतयते अभ्यवयेन धारयते असोदेवत्रैवज्ञि करोति हर्षतापहत्यै त्वज्ञ करोचे प्रियामध्ययज्ञः असौ हिमानकम् सितार्पय प्रत्यक्षिणाः कृत्यस्याजप्रत्यज सत्येकम् सितार्पये चेण्यानाकम् सान्तान्त्यैः रत्नकरोटे चेष्टये चित्तवटे उपयुव सन्नयते शिरपादः पशवः अशोमेवादंशे सर्वाणाम् कोन्नाम् नहिते सर्वे हिपुण्यादाः अनोषोम् नहिते प्रजाया अनोचे नोचेवास्य प्रजाभ्यः भवते अंवृशनिर्ज्यादृत्यन्द्रमसादये च रहो चन्द्रप्रसादय यथा अन्यत्मा अन्यस्मै प्रयच्छते आत्मैर्विषा यदेव कारिकपच्ये तेन कारिकपच्यम् क्रेणाति तदेशाम् समिधमपश्यते सामासत्ता ततो वा अज्ञा वाहुदयो भ्रियन्ताम् असो े आहुते शुभो अजगत्यागम् कलितद्वितीय कलितावादध्यावादशा एकाकुम्फलितमाचार्याहुजम् उभयुश्चेत्मये चेत् तस्मात् पाठमश्चेत् तसो असो वादः प्रतिष्ठापयते उत्तरावधे मे देवाजे मदराः असो देवाभवन् हराः कनीयप्रत्यभोगुम् हत्वा उत्तरम् प्रोजमजुजावा उत्तरावत्याभुजे हवान् देवाज भवन् कामगे ैवम् जत्वले भवत्य भोजत्सत्यवाच्याहुले पराभवन् कृत्यैवम् जत्वजे हरे क्रियामित्राय अधोज्यामजये राजिवधिजे धनमध्यायिन भरोते अज्ञ भवत्रश्चेत् स्थानच्चेत् कञ्जयेत् यज्ञस्थानमुच्छत् एष वा अज्ञभवत्तस्य स्थानः यत्त्वं युत्तरे आभिर्भुजा यज्ञस्थानमुच्यवेत् अधिकारो श्वानापुजम् च भवते यज्ञस्थाने अतो प्रानरुचने वादिक्रामते अवाजेन ब्रह्मवादिना वदन्ते असक्तद्वृते भवदयिते अग्नौ वैदेष्वाग्निर्वेश्वाहः पुत्राद्यत्रा अज्ञादेव आहुवे ज्यमानास्ते चित्राश्चाजे षट्सम्पद्यन्ते षट्वाः प्रोदेवत्रे नागे सम्भवादिना वदन्ते किं देवत्वमज्ञभामिति प्रोजात् यद्विषा जगोरिन्द्राज्ञम् यत्क्रवस्ते क्षत्राजावत्यम् च निवासे प्रोर्थीनाम् षद्वितीयम् क्षत्रे सद्गर्भानाम् तस्मात् गर्भ अनश्चन्तलब्ध तथा चामके हमनुष्याणाम् पुरम्परिजापत्या आत्मनाः चित्तपटिस्पदाकृत्यै उत्थिषते तत्सर्गेणैव क्रेणादि दक्षिणापर्यावस्तदे स्वमेव देव्यमनपर्यावस्तदे तस्मािणार्थः समेव्यावस्तरः अथवा प्रविन्ध्ये ब्रह्माचनिध्यै सर्वेरमये भगवान् यज्ञम् यच्छात् तत्था नाशक्यम् यज्ञस्य सन्तत्येत् अपोयनयवेत् अपृच्छमखः ब्रह्मवादिना पदन्ति चेत् अग्निहोत्रप्रायणा यज्ञानाः सुन्द्रायणमग्निहोत्रविषये वत्सो वा अग्निहोत्रस्य प्रायणम् अग्निहोत्र यज्ञानाम् सत्यं जगेतुरः अन्तरिक्षमाग्नेभ्याम् तिरौलविद्वानम् दिव्यामक्रोक्षतयः घोढतयो गरेः पनःपदयविध्वः त्रिहयः आदिद्रोलोपः यजमानः पशुः समुद्रोपभुषः संवत्सरस्मदाकारः तत्पाहिलाज्ञेः सर्वमेव वैदृश्यम् दत्तम् भवते त्यम् जोके सार्तिमेव तेन दक्षिण्याः कुरु चत्रातः अहदेवतेन लक्षिण्यम् कुरुते कालक्षिण्या ध्यावन्तो वे देवाहुसपादन्य हे वन् त्रेलज्ञा जगव अज्ञहोत्रम् वे देवाग्रानाम् निष्क्रियमपश्यन्ति ते शत्रायम् जोगे साध्वजा एव तद्धुतात्याय हिमानस्यापराभावाय यच्छातः अन्ध एव तद्धुताद्याय हिमानस्यापराभावाय यत्रतो स्नाये भुदमेवदने कठो प्रजता पशुकामस्य एतद्वाज्ञहोत्रम् मिथुनम् यदेवम् वेद स प्रजयावदलम् नमोमुत्तलया अधिश्रुत्योत्तरमानयते फलनामेवंशति प्रजने आद्यो तेजत्कामस्य ते जोगाद्यम् एतत्रैव भवते हयदापसुकामस्य एतद्वैपशो नागम् रोपम् रूपे नैवास्मै पशुनपन्धे पशुपा नैव भवते सद्यन्द्रियकामस्य इन्द्रियम् वैदृशे इन्द्रिया एव भवति चोधामहि सुरक्षरकम् फलम् कथम् तदवर्णः कुबले बाले सन्तरिक्षम् वामदेव्यम् वामदेव्यक्षयितवर्णः उपैन उपसरोपसत्सानम् मुन्नेषपसारयते अन्तरिक्षमेव एतावाद्यस्य पदनः केवलम् वेद उपैनवपदराणमन्ते इन्दनोपसत्तारम् सोवाद्यश्रावितम् प्रत्याश्रावित भवतारम् ब्रह्माणम् परत्कारम् वेद तस्य बहुतम् काणो वाज्ञभवत्रस्याश्रायितम् अवानप्रत्याश्रायितम् मम भवतार चक्रब्रह्मापयत्कारः ेवम् वेद तच्छत्रैव भुटम् पारिया वा नस्तै देवाः प्रातनो गृहमागच्छन्ति तर्पयेत् प्रजयाश्च बलभिर्विच्चेदन्न यत्तर्पयेत् सुयणम् प्रजया पदभिर्पयः त्रिजोर्देवैः प्रालिङ्ग्याव हेदिपालिकम् सम्पुषये त्रिजोर्देवैः प्रातर्यावभेदि प्रातः ैव देवामो एकोत्तर्पयते हयेन दत्साः प्रजलात्तर्पयन्ते अग्नमहत्साहोकले अग्निभागुम् सायम् सर्वजम्भागुर्जय अभ्याप् तत्स्वान्मत्वाभिन्ध्याय हृदन् अमित्सप्तमे सप्तमशास्त्री सा क्वदो वज्रः अज्ञः अत्र एव तत्सायम् प्राज्यमानो ध्यायतः भवत्यात्मनाः पदाः सद्भ्या भवति प्रजापदकामेतात्मन्वन्ये जायते स्वज्यात्मन्पदजायताः हे हे भ्रुवन् प्रजापदोषेदात्मन्वन्ये हस्त्यस्मयेधव चक्षुषा दित्यः श्वेता हुतादजागौ देव्यागच्छन्ता मम हुतात्ममेते प्रजापतिम् प्रत्यमायन् सहादित्योजाराज तन्नोकः भजेत् तस्यै बहौ प्रजापजलब्लभे तस्यै गणिते प्राणानानित्यज्ञनित्यादित्यः शयः प्राणा तस्य हृतात् गणेते अग्नेभूतात् गणेते तदज्ञानत्वम् भौरुगाज्ञहोत्रम् शयम् वेदगोरग्निहोत्रमिदे समर्थयते अवचर्जगप्राणापा सौभायब्धे हनुमाफलिके हेलकारिभवत्यशृत्या वनीयमभ्यद्रवराणि हेभक्ताम् प्रेणानि च दूताम् चत्वारि भवत्यैभिस्कृत्या वनीतमभ्यद्रवदे प्रेनादे प्रजापतिर्देवताजमानः देवतानाम् प्रजापतिपर्यावस्तवमादित्यमात्मजलेतापराम् पर्यावस्तदा से समुच्यमता जगत अपमृत्यम् जयते च एवम् वेद तस्माज्यैवम् वि बुले काहमुदध्यम् न जपदे हुतमेवाश्च भवदे असौच्चादित्यम् क्षौद्रम् जगे कायव्यमपृष्टम् आक्षिणम् शक्यमानम् सौज्ञम् बुद्धम् मारणमधिष्ठितम् कैश्वदेवासिन्दवः औक्षमदन्तम् पारस्वदम् निष्यन्तमानम् नैत्रगुंसरः धातुद्वादिनम् त्रिवःपतेरुन्नेवम् सविमप्रक्रम् क्रियमानम् प्रसन्नम् अग्ने प्रजापतेरुत्सदायङ्कुम्भुतम् अक्षिणतमुपदते श्रुतलोकमेव तेन जयते प्रातेमावर्तयते प्रेमलोकमेव तेन जयते मावच्चेत् मनुष्यलोकमेव तेन जयते त्यात् ज्येष्ठस्य ज्यैष्ठनेकस्य व्योमाजतस्ये स्यात् अवरोलु्यात् जेष्ठस्य कानिष्ठनेकस्य सर्वापघोषे प्रथम्पृशेत् कामोक्षरस्य व्यावृत्ये वायव्यम् वा एतदुपदिष्टम् आश्रमम् दृश्यमानम् हैत्रम् दृग्धम् हरिजम् नवद्वाच्यमानम् स्वाश्रमम् सवितप्रक्रानन्तम् रामापथव्यणम्पधायम् सर्वा सर्वाद्यहोगे धेन तर्पयते एवमज्ञहोमाणम् तर्पयते तर्प्यते प्रजयापधुरे स्वर्गम् प्रवसञ्जाना पश्यति पुत्रम् पश्यति पवत्रम् शपदिया वचुदर मिखनेत जागते शपीवं विचितो जहोतन जुपदी त्यूचे नदेरं वेदा त्यूबेदा स्गरोवेट प्यमेशा आदन्न तेखा लिगोग जहोत समझ होते तुदे कहा हदे कहा एका यत्र जहोते सर्चा जहोते शोट जी हैयरिसाद इस्थ� ह्यस्त सोष्णी सावाः तत्मा च पूर्व भवत्याः सोष्ण्येन उत्तराः हृदय अज्ञादि अज्ञत्वा हेति सायम् च भवति हेतदेव तत्र ज्ञायति प्रातः हेतलेव हितम् प्रजनयते ैभूतः समेवोपासरै नुन्न नास्ति नास्ति यज्ञः सप्तलियस्य तथा विषयुक्जे कृते वाच्याज्ञ रुद्रास्तर्जज्ञः सप्त तथा विधय दुत्वजे रुद्रे वाच्याज्ञ होत्रयम् आदिष्टे सैवास्याज्ञहात्रयम् हृतम् भवते सर्वदेव भवते विश्वदेवास्तः सप्तनियस्तयरुक्पते विश्व सैवास्तदेव प्रज्ञहास्त्रयम् हृतम् भवते नितरामस्य लामै विरोहिनी च भवते किं धस्तज्ञः सप्तनियस्तविधयुक्पते इन्द्रदेवास्याज्ञम् भवति अङ्गारा भवन्ति चिवेदी प्रजापतिस्तस्यज्ञः तस्मिन् यत्र तथा विषयुष्पदे प्रजापतादेवास्याज्ञहोत्रयम् हृतम् भवति सर्वङ्गाराध्यो हन्ते हलस्यज्ञः कस्मै यत्र तथा विषयुत्पदे ब्रह्मण्ये वायम् हृतम् भवति विश्वेषु देवेषु इन्द्रे प्रजापतौ ब्रह्मण्ये हवर्धतेवास्यैतासुदेवताम् चेदम् त्वा सत्येन परिषञ्जामेम् परिषिञ्जने सत्यम् सत्येन परिहृञ्जामे अर्गार्तम् फलावादित्यः सत्यम् अर्ग्निवदिना नित्येन सायम् परिभृत्यते अग्निना नित्यम् प्रातस्तः यावे भवतः वेद ओ प्रजापजरकामयप्रजास्तजयते कर्यतम् तामपक्ष्यते अम् मनसानुद्रस्य सन्देश ततोपेतप्रजापदजा आत्मा तापाक्राम्य आग्रहेणागृह्णात् ह्यहत्सम् यःकामये प्रजा यजेते सोतारम् मनसानुद्रस्य प्रजापदुपेदभोता प्रजापते भोक्ता प्रजागे हनय प्रजापतिः प्रजापते राष्ट्रे भोगे हो नय प्रजापतिः प्रजापते रात्रे क्यो नयाज भोगे क्यो नाध्ये प्रजापति प्रजा असदा प्रजानाथं कृत्य भोगे एतस्मात् योनेः प्रजापति प्रजा असगदा यस्मादेवयो मे प्रजापय प्रजा असृजता तस्मादेवयो मे प्रजायते राम् मनो दक्षिणदौकाश मनोरै प्रजानामुपद्रक्ता उपद्रक्षमेव प्रजायते गृहो भवति प्रजानागुम् द्रक्तानाम् धृत्ये चम्ब्राम् विद्याम् विद्वान्ध्योलक्षे सौरण्यम् परेऽस्य तर्सक्रह्ममुद्यक्ष्य ब्राह्मणम् चक्षिणतो विषाद्यक्षेत एतद्वै देवानाम् परमम् दुष्टम् ब्रह्म यच्छतु भवतारः तदेव प्रकाशम् गमयति फलेन प्रकाशम् गतम् प्रकाशम् प्रजानाम् गमयति सर्वस्तम्भमुद्य अग्निवानेवस्तम्भः अग्निवत्सेवम् व्याजश्चेत् ब्राह्मणो दक्षिणश्चेत् ्राह्माणे प्रजानामुपद्रष्टा उपद्रष्टमत्सेवेन ईश्वरम् चैकम् यस्याेन तत्त्वाया प्रजातमेवेन च भवते हरिज्ञम् दश भवतारञ्जा चक्षेता प्रजातमेवेण साविधेन वक्ष्यम् दश भवतारञ्जा चेता साधिभयेन अथवा यज्ञो मे दशता अभिजलम् दश भवतारञ्जभुजा प्राणाः माभिस्तसमये स्वप्राणमेवेन अभिजलये एतावदेवम् यावत्प्रामाः यावदेवत्याग्राहयते यद्वाचक्रौरम् तैलत्करोति वाचरेण क्रौलेण प्रवृक्षते सायगाख्यमार्चते प्रजावदयकाले ततो वेदर्शपोर्णवासात् कावतावताम् स्वग्रहेणागृह्णाय सङ्ग्रहश्च ग्रहत्तम् दर्शपोर्णवासाबाधमानः मनपालत्या पुष्पयो भृत्यये स्वमेतम् महात्याञ्च पञ्च भवतामश्चालम् महात्याञ्च हानिग्रहेणागृह्णाम् सातम्मास्यात् साकम्मान्यैव दत्त्वारभ्य पदमुदय भवते सातम् मात्यानागम् दत्तानाभ्येः स्वकामे बन्धकम् हरे अतिरमपक्ष्यम् मनसानद्रत्याः वनीजे लोज ततो वेशवचुबन्धवस्मात् व्यक्तारामज सन्द्रहेणागृह्णान् सद्यः शग्रहस्ताम् असुदन्धेन लक्ष्यमाणः सद्भवतानदृत्या वनीजे लभुजान् वशुबन्धमे वदताजने गृहो भवते रजुबन्धस्त्वेः स्वगावेतपे तप्तहोदानुद्रत्याः सभवेदपौन्य स्वगात्मात्माय हैनागृह्णाय सत्याख्यताम् हे शिष्यमाणः सप्तहोदानसानुद्रत्याः वरीले जया क्ष भारा यभवर् आदित्य यज्ञमुखम् वा वित्तम् मुखर एव यज्ञम् संहत्य प्रदमुदय अयज्ञायः स्वपद्रैकः स प्रजा प्रजा एव्यागश्च यज्ञमेवाकः प्रजानाम् उपसक्तोव्यागत्रद्वयपद्रेनाम् आयजनम् स्वयवेना आयधनेनवकल्पयते प्रजापजनकामे तत्प्रजा यजय हरभोदस्यता सत्रवशभ्यत्वामोजता सम्पञ्चदस्वामो मध्यरपोभोगपक्षस्याफलपक्षस्या भवताम् भोदपक्षम् देवान्वसिद्ध अमरपक्षमनुभवराः फलो देवाभवन् फलाभुराः शङ्कामलेन वशीलाम् जातिरे सम्पोभोगपक्षे कुशीरामेव भव ीजापदपक्षा प्रजापदम् वत्सरः प्रजाप्रजलहि भवताः एवम् प्रजापदम् भवन्वेषत भवदेव भोजागम् भवत् जदाब्रवणेण हे तपोदस्य सः आत्मन्निन्द्रमश्यन्न समब्रवन्ते सौरभ्रमेण सिंहाग्रहेण भवेत् संरक्षणम् प्रजाः प्रचोकानि च ब्रवन् सञ्चपतप्रदेश प्रजापतेभोत्साहप्रजायते जयन्दया यत्पा हे विद्रहे आत्मेव जायते देवानेतजाभुत्यादित्याशार्गे लवचे स्वर्थम् अयम् को द्वेषु वर्गम् लवक्याभयम् को द्वयते अनादित्या नश्यन् पुरः प्रातरम आकाशाज्ञे गो द्वेषुवर्गम् लवकमायन् चतुर्वर्गकामस्यात् पञ्च होतारम् परात्राका संवत्सरोदे पञ्च होता संवत्सरः सुवर्गो लोकः सम्वत्सर एव स्वर्गम् लोकमेत्याद्व्यम् वक्ष्यामि छन्दस्य साहित्याम् तस्यभिमि भ्या इत्याभ्यः त्वयाव्यम् भवन्ति त्वजामप्रतिख्यायम् गच्छते द्वादशमाकावः लवकाराः प्रसादानित्य एकं एतत् चिन्ता एतस्मिन् प्रदक्षितः हरेक्षितम् लेदा तस्य प्रचक्षते प्रजापतिरकामे प्रजा यानमपश्चाधेनाम् एतामत्ये वागा हेतावारे चतुर्भवतानप्रजलामिते तत्र चतुर्होत्रा श्रोतान्य सभोरिहरन्दर्ये सद्वितीयदेव्याहरन्तमध्यानि सामाणि सीज मदस्य सोदान्य स्याहर सदैव मदजदा अद्य मुख्यमन्त्रिणः स्वतः एतावेदयः इमान् तदवे लोकान् प्रजा पशुवच्छन्दानम् जित्वा जायन्ताम् एता प्रजापते प्रथमा जापदे प्रजा रावेता स प्रजा प्रशजन्मये जायते सञ्जहतारम् सायम् नाविन्दताम् सत्यैतलवम् जायते एतस्य हवेते क्षाम्यद सप्तसत्यङ्गबाधदासुराजना सत्याप्रियमाधेद सद्दुर्बन्धगुम्भवद सद्दुर्बन्धप्रहिरण्यस्त्रजन्म सद्गीजमदक्षाम्यद सप्राङ्गबाधदालेवाजन सत्यप्रियमाधेद सत्सुवर्णगुम्भीरण् भवद् सत्स्वर्णप्रहिरण्यस्त्रजन्म हिरण्यस्य जन्मरेण सुवर्ण आत्मना भवते सुवर्णाः श्रद्धाः सुवर्णकम् हिरण्यम् भार्यम् सुवर्ण एव सप्तवर्गम् लवैरञ्चानुदयत्रिंशेन एकविपुंशेन ऋतुमसत्ता सप्तदशेन प्राजायत च एवम् विद्वान् त्वेन अत्रैव अर्जन् लोचमे प्रणवे नोमेपुंशेन प्रतिष्ठते एकविपुंशेन ऋतुम् सप्ते सप्तदशेन प्रचाल्यते अस्मा सप्तदशत्वजापति त्रि सप्तदशः यन्नस्ते सर्वदािणामलय रामब्लीलादे ते ब्रुवन् चालक्ष्यप्रतिगृह्मा दक्षिणानवले ते जाव्यावृत्यप्रत्यगृह्ण्येदाम् दक्षिणानावैनात् एवम् विद्वान् जावृत्य दक्षिणाम् प्रतिगृह्णाते तैनम् दक्षिणाब्लैनादे राजा त्वापरमानविदैव दक्षिणेभ्यैरण्यमित्याह आज्ञैरम् नैविरण्यम् तदेव नद्यैवनया प्रतिगृह्णाते सौमायवाद इत्याः सौम्यम् वैलाभः स्वयैवैनम् देवतयः प्रतिग्रन्थादेत्याः स एवम् देवतया प्रतिग्रन्थादे अरुणायाश्वमित्याः सदैवैनम् देवतयः प्रतिग्रन्थादे प्रजापतयगुरुणमित्याः पुरुषः तदेवेन दैवतया प्रतिगृह्णाते हनवे तल्पीत्याहरोपः तदेवम् दैवदया प्रतिगृह्णाते उत्तानायाङ्गेरसायानयत्याह इयम् वाुत्तानाङ्गेरसः हरेण प्रतिगृह्णाते हरेष्वादुचारम् प्रतिगृह्णाते हरेष्वाद्रौदेतया सह हरेवनम् दैवतया प्रतिगन्धाते हे नाम सप्तमस्यामित्याः अमृजमेवात्सम्भत्रे अयवसात्रैत्याहेन कृत्वा स्वर्गम् स्वर्गम् गमये अयोमख्यमस्वरिग्रहेश्वः हे जैशम् अन्मयः आत्मनयवेतापरे हेम् कस्मादामित्याह सजापदन्वेतः प्रजापदय कामः कामायत्याह कामेन हि कामेन प्रतिगृह्णाति कामो दाता कामप्रतिग्रहेतेत्याह कामो हि दाता कामप्रतिग्रहेता कामकुं समुद्रमाविषयेत्याः समुद्रैर्बहि कामः नैर्बहि कामस्यान्तो कामेन सा लोके कामागच्छति कामे सप्तक्षिणे रत्याः कामदेवम् विद्वान् दक्षिणाम् परिगृह्णा चेत् हन्त यत्र यज्ञस्य इवान्तम् गत्वा हन्नाद्यमवन्धरे लोकाः शेघ एव लोके चान्नाद्यमधरे भवन्ते अन्नम् ने पश्ने अन्नमेवावन्धरे हनसा कर्तव्ये हनसौ हनसा प्रतिहरे अनयतेः प्रजापते देवादेहत्त्वाः राज्ञी यत्सर्वदाज्ञा यन्ते हस्यामेव प्रतिष्ठन्ति सर्वभोत्रेण भवताम् सिद्धान्त्यै हंसोपादयिख्यस्य खलु वे देवानाः परमम् दुःख्यम् ब्रह्म यच्छतु भवतारः दशमेः गच्छतुर्भवत्रेण व्यायष्टे यद्गत्यैवान् सम् गत्वा परमम् दैवानाङ्क्यम् ब्रह्मा तदेव प्रकाशम् गमयते तदेवम् प्रकाशम् गतम् प्रकाशम् प्रजानाम् गमते पादम् गच्छते यज्ञमानदेवक्यम् वा भादुर्वदेवत्या अन्धारास्य ध्याये भादुर्यस्यैवम् रकम्ब्रन्ते यद्यवाच विसृजय अभग्भाजाक्षिकम् इन्नत्वम् विसृजयत राच्यभाज आटवक्षिकम् अभिवृष्टभो विषयवाच विसृजते एताम् समेता चेत् अपमक्षिपंशते यावता विच्छो समेते प्रजापतिप्रजा असजता सा तृष्टात् कमशृष्यन् सा लोपेना न प्राविशत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 संरक्षेर्यम् भोवत्सामत्राविशत् कर्त्यवजः पञ्चदशहस्तः पद्य भवम् वेन अभिभ्रातुर्जाम् भवति हे देवासुरेत्य स्वर्गम् लमायन् हे मत्सन् लोके कुज्यन् हे हे कुर्वन् अमृतःप्रदामुपरिजीमेते हे दत्समासारम् यज्ञाया ष्यन् फलि अपरपदेवेद्युन्याहरे तस्मात् पुच्छोहदयम् तस्मात् अप्रासः आगतो न वकण्णाभिकारणयन्ते पुच्छोयदनं तेवादेतु दवदे इज्जवदनपदा तेरिवात्मनां प्राद्रुपेनादिन्तः अभिदवर्गान् वकवदयन्ते तेहं विद्वागच्छत दवदे इज्जन्तमुजे शिवात्मनां प्राद्रुपेणदिते अभिदवर्गान् वकञ्चरति त्रा नित्यम् कृषवै कृतर्भोता कृषैवात्मन्धत्ते पञ्चभाता पदमुपदायते से पञ्चभोता ेव्याच्यञ्जने अवमानेतारम् आत्मरे अवमाने पञ्च भवतारम् ऋषयज्ञेशब्कानम् यज्ञाय त्रिवक्षत्वे भाकालम् अनुभवमेवेनायत्तर्पयते सत्यजप्रजनामते स्वानुमते सप्तमासयकामाः हे सुरङ्गलङ्गाय सर्वे जातप्तः भजते स्वामस्ततभवात्रा अद्य पञ्चवात्रा धाता चात्रा इन्द्रः सप्तमस्त्रा हा गुङ्गायामन्यकामयता हेनामद हेणप्रलायः प्रेतये प्रेतवेत्सन् हैतायानाम् परिहत्तम् शिक्षञ्जयन् सन्धितानाम् जयत्वम् आत्रेभ्य आत्मवन् सदास्त्रेणामात्मित्वम् तमघ्नन् तस्य यथोक्ष्यग्रन्थता ते गः भवन् सद्ग्रहाराजहस्तम् यस्यैवम् विहितोग्राक्ष्यन्ते सत्यत्रैवताः ते ब्रुवन् सौवेहस्वश्वभोज तममधिष्णः पुनः इदम् सुभामहा इति सञ्चन्तोभिरसमन्त तच्छन्दराम् सन्द्रम् ताम् राजमानयन्थापयन्त्रम् एव चेत् स्वमौले विद्वान् स्वमागच्छतेन पृच्छते रः यश्चैवम् वेच्छना सा उभौ परममागच्छतः च्छत्यावेन गच्छति इदम्बाञ्जनाशेदे चाधे सान्तरिक्षम् करपदेव सप्ता बाणागड्यरजायता सद्भोजाप्यता सप्ता बालाभ्योजरजायता सद्भोजाप्यता सप्ता बालादर्जरजायता सद्भोजो गप्यता सप्ता बालान्मलेजयोजायन्त सद्भोजा गप्यता सप्ता बाला उदाराजायन्त भवते तस्माना समुद्रस्य न मिलन्ति पुनस्तान्ते भवता प्रजापदृपेर्यम् विद्राविस्तप्यते भवत्येव तत्मा इदमापत्र स्वरोदे प्रजापदे सजसाज्ञेष्ठाया इति हिप्रापजदा सामृधव्यहते यद्यमिच्छा हरञ्जयक्रमहले हे मोक्षमनक्षा साम् हे मधेरण्डे एतद्वानेतान्तान्नमाच्छति हरिमाम् प्रतिष्ठामविन्ददा हरिमाम् प्रतिष्ठाम् मित्राकार्यास्ता कामुभजा सा भवते स्वकामे सप्रजा यजयते स प्रजना एव प्रजा यजयते स्वकामे सत्प्रजा हे देवे प्रजापतेन सोभाः वेदेव प्रजानाः भोजने सद्वेलानाम् देवत्वम् एवम् देवानाम् देवत्वम् वेद देववान् जन्मो रात्रा धानेद मनः प्रजापतिवजना प्रजापतिः प्रजा सद्वा इदम् मनश्चैवम् परिष्ठितम् किञ्च तदे सन्नाम ब्रह्म विच्छन्ते प्रजाय प्रजना वधुरे वेदा प्रजापतेन्द्रजनानुजाभरम् देवानाम् हन्दाभि हरे हरे शेदानामरे हेमेवा अब्रवन् शस्तमजि हयम् वेतच्छागम् रत्मयित्वा शक्तमहि भयम् वै त्वत्सैलागुम् रत्मयितु मा देवा अमोजे अथवा इदन्तरे प्रजापत उभहादेवेन शिन्नादित्ये इन्द्रनामधि एवम् वेद अभिव किं किं बाणकर्मि स चन्द्रम् महाभये विप्रातपदे षच्चन्द्रमस्तम् ह एवम् वेदवाने भोज सन्देवार्यापिता गोपायशोर्यत्वम् स एवम् वेद हैनन्दभ्रोमे सत्सना इदमिन्द्रियम् दत्सखादेयम् दत्त्वम् श्रे एवम् वेदा इन्द्रियाग्रे भवति वा सप्तमेकम् कर्देवम् वरिचविषन् पुरस्ता रुद्रालक्षिणतः आदित्याः पश्चाद् अङ्गिरथप्रत्यञ्चम् आद्याः पदाम् स एवम् वेदामानाः सम्विधन्ते अप्रजा वदेव भवताः प्रजा आवयद सातिष्ठन्ताध्याय आमुखम् परस्तात् पश्यन् देः रक्षिरथः पर्यायम् रक्षिरथः पर्यवर्तयतामुखम् परस्तात् कृसम् रक्षिणतः पश्चात्पर्यायन् स्वश्चात् पर्यवर्तयतास्तस्यः कृक्षिणतः मुखम् पश्चाद उत्तरतः पर्यायन् स्वोत्तरतपर्यवर्तयत आमुखम् बलस्तास्यः सुखङ्गक्षिणतः सुखम् पश्चाद मुखमुत्तरतः वोध्वायन् सर्वतोभोत्पादयते तस्मै प्रजा इच्छन्तः अन्नाज्ञायैवम् निद्रान् परितवर्षयते विज प्रजापजले अभूत् प्रजाच्चेत् चित्रे अस्मै प्रजा अन्नाज्ञाय अन्नादरे भवेत् प्रजापजलगामेत बहवद्भोजाः करेश्यते अम्रायुङ्का तस्य प्रयुक्त्य भोजानुभवत् स्वकामेत बधवान् श्यामिते पञ्च होतारञ्जलमेता सम्प्रायुता तस्य प्रयुक्ते पशुमान् भवते चक्रामले च पशुमान् चामि सपञ्च होतारञा पशुमानेव भवति स्वकाले तत्सवोमेकत्वे रे स्वपञ्च होदश्रब्धोतारञ्जलमेता सम्प्रायुता तस्य प्रयुक्ति नोता चामले तत्सवोमेकत्वे रङ्गे यञ्चपञ्चयस्मा स्वकामे मयास्याः आमे स्व मया एते रोदोरम् सम्प्रालिङ्काम् तस्य प्रयत्य सा भयाज्यहोदय आत्म्यतापस्त्व मयाज्यजायता यत् कामलेन स्वयाजेत्याहेण स्व मयागेजा एते सप्तमारम् प्रयुञ्जेता सदा एषप्तयेखे ने जैवाजन्य हे मस्तके हे हे द्रन्य हा हाजरे हे सप्त नित्यम् पिधाया स्यम्भु एतेन क्रियते कस्य वायम् वृत्तिः एवम् वेद सम्पदेस्मै तव अयम् यज्ञः सप्त अमुक्तसभ्यो देवम् भजेत् एवम् वेद उपयनै यज्ञाने योगेश्व होतः, होतः, दशपोर्णमातोस्याद्धातुः सौम्यासप्त एवम् चैर्भोजनान् एवं वेदानसान् भवति ओह्वादिना भवन्ते किञ्चनाञ्च श्रद्धाः हेन चतुर्भोतारः तद्भाता उच्यन्ते चतुर्भोजनाम्भोगे चतुर्भवता अद्य पञ्च भवता धाता किन्नः सप्त भवता दश भवता एवञ्चतुर्भोजनामध्यम्बेन हेयामेवम् बन्धतांसुताम् एवञ्च किम्बेन कल्पदेस्मै येषामेवमायुधम् वेद आयुधनदान् भवति येषामेवम् प्रतिष्ठाम् वेद सख्ये अपेक्षते सम्भवादिनापतन्ति दश भवता भवता पञ्चभोचा षट्भोचा सप्तभोता अथगच्छाच्य भवता च उच्यम् कङ्के इन्द्रोपेलभोता इन्द्रेष्ठोदेवतानामुपदेशनाम् लभ्य श्रेष्ठम् देवतानामुपदेशनाब्देव तस्माच्छेक्षमायन्दम् प्रथमे नैवानुबुध्यन्ते हयमायन्ने हयमवासाजले शेर्किलक्षमोद्वागच्छलिजनः प्रथमे नैवानुबुध्यन्ते हयमायन्ने हयमवासाजे दक्षिणाम् परिग्रहेश्याम् सप्तश्याय आत्मानैव आत्मनवनाक्ये न प्रत्यङ्गेन पश्चात्कानादीनः अनुलोम निद्राहम् सानामेवायजे कायश्चित् सेवा भवते क्षरमानफला कार्यत्रयाधिकन्नागत्र स्वमाम् स्वयन्या इन्द्रय वय शक्ते भवते हैनयदा यत्प्रत्यवदे तत्सर्वमुत्तानयनाङ्गे हृदप्रत्यगृह्णादम् यम्मा प्रतिगृह्णीयाद सत्सर्वमुत्थानस्थानङ्गे हृदप्रतिगृह्णाच्यत्यनप्रणीराज यम्बामुत्थानाङ्गेरेन प्रतिगृह्णादे हैनगङ्गनस्ते हरिः स्त्री एतद्वेवके भवेत् अशविद्वान् वर्तयते विशेषाः कामश्चल्लवके भवचेत् एव तावे सप्तवृष्टिकामान्यवर्तयन्त खग्निश्च आयुक्तः अन्तरिक्षम् च आदित्यश्चद्यौश्च अज्ञम्यवर्तयत सदा वस्मपुष्यते हृदयन्यवर्तयत संरभते धर्मस्मतिभिरपुष्यते आयुज्यवर्तयत समरेजेभ्यपुष्यते अन्तरिक्षन्यवर्तयत सद्वयोभिनपुष्यते आदित्योन्यवर्तयतास्मभिनपुष्यते यौन्यवर्तयत सा नक्षत्रेण पश्यते चन्द्रमान्यवर्चयतान् पश्यते राष्ट्रे पुष्यन्ेवम् विद्वान् निषमक्षयते परिचात् सत्यमाज्ञे विरन्यम् परिज्यवशः अर्धमिन्द्रियश्च प्रत्यगन्धार्धमिन्द्रियश्च हस्वमिन्द्रयस्यात्मन्नुपासत्य हृहम् वित्तानि हिरण्यम् प्रतिग्रन्थाजे अधो वित्तान् प्रति ग्रन्था हस्वम् जगच्छामक्रामदेशप्रदेयश्चापाक्रामज हरे हरे है नवे प्रयस्यात्मन् उपासत्तः हृयमिन्द्रियस्यात्मन्नुपासत्य च एवम् विद्वान्पाठ परि गृह्णाति अभव विद्वान् परिगृह्णातिगन्धायत्थमिञ्जयस्यात्रमिन् जयस्यात्र एवम् विद्वान् माम् प्रति गृह्णाति अथगा विद्वान् परिगृह्णादितमस्य पश्लामजे सत्यवै वरुणस्या स्वम् प्रजय प्रभुतः पञ्चमीन्द्रियश्चापाहज हमे तेनैव प्रत्यगृह्णाय षेणवेत पञ्चमीन्द्रियश्चात्मन्पासत्त पञ्चमीन्द्रियश्चात्मन्पासत्य हे रोम् विद्वान् स्वम् परिगृह्णादि अथयो विद्वान् परिगृह्णादि पञ्चमस्यमक्रामदे तच्छलये द्वजापद पुरुषम् प्रचक्रवणः षष्ठमिन्द्रियस्यापाक्रामज अमेतेनैव प्रत्यगृह्णामेषु षष्ठमिन्द्रियश्चात्मम् नृपाधमिन्द्रियश्चात्मन् न्य एवम् विद्वान् पुरुषम् प्रतिगृह्णादे अभव विद्वान् प्रतिगृह्णादे षष्ठमस्येन द्विगस्यामक्रामदे तस्य ले मनो सर्पम् परिपुणः सप्तममिन्द्रियश्चापारामदे समेते नैवम् प्रत्यगृह्णादय हे रवेश सप्तमिन्द्रियश्चास्त्र सप्तमिन्द्रियश्चात्रे हे अम् विद्वारि सर्पम् परिगृह्णादे अभिलौ विद्वान् परिगृह्णादे सप्तमन्द्रेन्द्रियश्चापक्रामदे सत्यरा उत्तानश्च प्राणप्रगुणः अष्टम इन्द्रियश्च प्राह हरे हरे प्रत्यग्रन्हाय हे हरे सो अष्टममिन्द्रियस्य अस्मन् समासस्य अष्टम इन्द्रियस्यास्मन् समासस्य हे अहम् विद्वान प्राणपरि ग्रन्हादे अथयव अष्टमत्तेगन् यस्यावश्रामये यद्वा इयम् किञ्च सत्सर्वमुत्थान एलाङ्गेरस्प्रत्यग्रन्हाद् हरेण प्रगृहे नाहिण यत्किञ्च परिगन्भीराज तत्सर्वमुत्थानस्थाङ्गेरस्परिग्रन्थाय परिगम्भीराय इयम् वा उत्थानाङ्गेरसा अन एव वेदपरिग्रन्थायिते ब्रह्मवादिना वदन्ते हे दश भवतारसप्तमासुनः हेन तेभ्यवजनार्ध्वन् हेन प्रजा भजन्तेति प्रजावचनावेते विभवचनार्ध्वन् हेन प्रजा भजन्ता हे चतुर्तारसप्तमासुना हेन ते विवचनार्ध्वन् हेनवीरजन्तेति सोमे न वेते विभवचनार्धमन् हेनवीरजन्ता केनदे गृहवचनाध्वरन् केनैद्वलोकेभ्योधान्त्रानुगन्ता केनेषाम् पशोनुवञ्चते चेत् अग्निनावै च गृहवचनाध्वरन् केनैभ्यलोकेभ्योसुधान्त्रानुगन्ता केनेषाम् पशोनवञ्चना होता केन ते घृवचनाध्वरन् केन धात्रा च गृहवचनाध्वरन् हे सप्तोनकम्पयन्ता हे सप्तभोदसप्तमास हे ने भवजनाधवन्न हेन सुबरायन्न हे नेवानुसकान् समजन् मण्डले हरियन्ता वेदे भ्रवजनाधवन्न हे नवरायन्न हे नेवानुसकान् समजन् मण्डले हे दे अवान्तरमेव सत्यनामुद्योगे वेदकामात्मै प्रजा हे ओम् वेद हृद्वाङ्किञ्चतुः ज्यो रञ्जकः हेम् विद्वारिभदय हे भोजो वेद हरियमाभक्तभो एतद् भवता सा एव सर्वासु प्रजास्पन्दमध्ये सर्वादितमभिषेके प्रजावयप्रजा शक्ताद्यत्र गुण् सर्वेयम् भवतो इत्यर्थे आप्रत्यसम्बन् सात्रेण एव केवलाप्यावस्तोहन्य तत्त्वारिः तस्य नित्य खलो चतुष्टत्वाक्रयणित्यश्चन्द्रमाः क्षेत्रोर्णमासाध्याल्यावर्तन्ताश्चत्वारि यज्ञानि सत्त्वाशवोर्णमादज्ञः सञ्जयत्वाक्रयत् पशः प्रत्यगन्मान् ेनैवज्ञलावर्यावर्तन्तः सञ्चत्वार्यावर्तन्तम् प्रालम् सत्ताराबन्धस्य यज्ञ सकृत्यः सप्तगत्वाश्व साध्वयणे चक्र्यावर्तन्ता साभयम् कथे कर्याणाम् प्राणाय तस्मात् सौण्यस्याः चक्रमः सप्तादेव प्रे जगत् स्वास्मै सत्यवाद तत्कर्मे कुटुम्बत्वरे सर्वै यज्ञामयन् तस्मात् मत्परे सर्वे यज्ञकृत्य पञ्चभाषा नक्षभाषा सप्तभाता एकभात्रे बलिम् भवन्ति प्रजाबलिम् हैनप्रिक्षादम् गच्छति चैवम् वेद प्रजा भवति प्रोग्रामस्य जनाः सोऽनन्तरं परिते मयन् नमस्ते सर्वे हे तवमभिं मयम् प्रक्षते ये एताविस्ततो भवते आत्मप्रणाना पश्यते शान्ति भवते तेवै आत्मनमस्नारः रजिहा स्वञ्जयोदे तेहोदा मेरुचक्केन तु महात्त्वात् कृधिहोत्सम् तिलजात्त्रवये आरित्यस्य दशायुध्यम् गच्छति सदन्नयने रस भवतानेव नत्यज्ञमात्मोचासौ चारित आत्मनालङ्कानि स्नोदे आदेशस्य दशायुध्यम् गच्छति करोन्नयते अमितञ्छे पञ्च भवतानमेव नत्यज्ञमात्मानि समस्ति मध्याह्नम् आदित आत्मनः स्तु आदित्यस्य दशाम् गच्छति छलोन्न हिदे सब्धोदयत्यज्य चलुमानः बन्धम् आदितात्मनः आदित्यस्य दशाम् गच्छदे सर्वहि सत्य होदे हमित्सप्तमे सप्त न्यज्य क्षनुमाः अर्तजा आदित्यस्य साहित्यम् गच्छरे फले जहोदे जाचार्ये चतुहोदारम् कर्मजवर्गस्य शृणोति आदित्यस्य साहित्यम् गच्छरे प्रजावदर्गा प्रजा ने फलो लभ्यता भवते सहिदस्या वा भवते तस्मात्नी कृष्णस्या वा भवते तत्मानाम् कृष्णस्या वा भवति तस्यासु एवायीवदेपुराणामतु रक्तम् हेलसुराणाम तु रक्तम् वेदा असुना एव भवति है नमृते सौभराम् तस्मा सम् हयम् चरणामितम् वेद हे हरिमस्वानाम् फले हरिकलभाम् सेयम् शृष्पामनश्च्याददा तन्मनुष्यानाम् मनुष्यम् स हे मनुष्यानाम् मनुष्यक्तम् वेद हस्ते अभव े पत्म्यनुष्यानाम्नाय दिवाक्त्राभवदेवानुवानाम् देवत्रम् हे एवम् देवानाम् देवत्त्वम् वेद दिवा देवाश्च देवक्त्रापवदे आदि चत्वारयम् भागुभि हे वामनुष्याः कृतवराः हे कृतत्वम् पवणयो भवेत् हे एवम् वेदा सम्भवानिमा वदन्ते सर्वा इमम् यद्याय शतोऽयम् भवते भवते यदविषम् भवते पुरायप्रमी वेदासुभात्या प्रजाम् सर्वा इमम् वेदा शतोऽयम् भवते यदसि भवते यदविधम् भवते फलमायुरेदे पुरायहत्वमीरे असुनाञ्छे सुन्दरे प्रजाम् अद्य कवदे अपभिवदे अपमभितम् पवदे हस्यात्मवदे इमामभिभवदे इमामभितम् पवदे अज्ञेक्पवदे अज्ञमभिवदे अज्ञमभितम् पवदे अन्तरिक्षात्पवदे अन्तरिक्षमभिभवदे अन्तरिक्षमभितम् पवदे आदित्यापदे आदिक्षभिवदे आदिक्षभिलम्भवदे द्यवदे शिवमभिभवदये शिवमभिजम्भवदेक्षप्वदेश अभिभवदे शिषु अभिजम्पवदे तयस्थाजे राण एव भवता पुरस्थाजे तत्राः पुरस्थान्तम् खर्वाः सजा प्राणविक्षियप्रजानाः प्राणेवयप्रजानाहम् भवति एवम् वेदा समावेशप्राणवेदा अजरक्षिणतो राजी माधेश्व भवत्सा दक्षिणतो वादे सत्मानाक्षिणतो मान्तम् विद्याय सर्वादिष आवाजी सर्वाभिम्भागे समावेशमाधरेश्वला अगरत्पश्चादवादे भोमान एव भोगत्वा पश्चाद्वाति हूतमस्माहरन्ति एवम् अभिरुत्सरतोभत्वा भवति हे एवम् वेद समाने सविम् पुरस्तादायन्ति च गेवाश्च पुरस्ता स्वात्मानः आगत्येवभ्यन्ते पुरस्तादितरान् आत्मास्तरन्ते अभयेन लक्ष्यतायन्तमवदन्ते च गेवासु लक्ष्यतात्मानः आगत्यन्ते लक्षितराम् आत्मा तरन्ते अभयनम् पश्चातायन्तमवदन्ते च गैलाश्च पश्चात्त्वात्मानः आगत्येव पठ्यन्ते अस्यादुतराम् आत्माचलम् च अशयेन उत्तरन्तेनः आगत्य तस्मादेवम् विद्वान् हेमनित्ये हेमचले सत्येव क्षौभाषेण हन्धरे उपवापदे तमेव भात्वा नमो ह्वेदेन जनानां सर्वेषां च चादः इतादं निरम्भातो वायादे असक्तवेनादन राज्ञा वदे आदमेव संयुग्म्यणं सममितत्त्ववदे आवश्वरणं निरम्भावरतागेत् स्थितस्ये तानागामाः सर्वे प्रजावन्ते श्रेयं गतः प्रजावत्त्वा भगवन् राजा नमोदराय श्रद्धाभुजगमे सा नमस्ते अस्तु भगवतः महत्प्राणि सत्त्वाध्ये स्वमम्बैराजानम् कामये श्रद्धाभुजकामय दैले तस्यानुभक्तालङ्गम् प्रयित्वा शतभवदानम् प्रवस्ताना व्याख्याय शतभोगानम् दक्षिणः पञ्चभोगानम् वस्त्राणाय षट्भोदानमुक्त सप्तभोदानमुपरिष्टानाय समस्य कृत्वा राजा भोगन्तु माशक्ष्व चेतन् माजक्ष्व यस्य बाणादिने तस्यानुभक्रयेण वेदायम् प्रियस्यामि तत्मानेतज्ञस्थामलङ्कारम् कर्पयित्वा शवकारम् प्रस्तानाख्यायकारम् लक्षिणतः पञ्च अवकालम् प्रत्यानाय सर्भावकारमुक्ततः अवकाश्रमरे प्रिय भगि